श्रीमद्भागवतमहापुराणं चतुर्थस्कन्ध अथ चतुर्थोऽध्यायः मैत्रे उवाच एतावदुक्त्वा विररामशङ्करः पत्न्यङ्गनाशं शुभयत्र चिन्तयन् श्रहृद्यदिक्षौ परिशङ्किता भवान् निष्क्रामति निर्विशति द्विधा सुहृदीन्द्रिक्षा प्रतिघातदुर्मना स्नेहादुदत्त्यसुकलातिविह्वलां भवं भवान्यप्रतिपूरुशं वृषां प्रधाक्षति वैक्षतजातवेपथो ततो विनेश्वस्य सति विहाय तं शोकेन रोषेण च दूयताश्रिदां पित्रो रगास्त्वैमिमूढधीर्गृहान् प्रेम्णात्मनो योन्धमदा सतां प्रियः तामन्वगच्छन्द्रुतविक्रमां सतीम् पुरो वृषेन्द्रास्तरसा गतव्यथाः तां सांसिंसारिकां श्वेतातपत्रं व्यजनं सृगादिभिः गीताय नैर्दुन्दुभिशङ्खवेणुभि कृषेन्द्रमारोऽप्यबिम्बिटङ्किताययोः आब्रह्मघोषोर्जितयज्ञवैशसं विप्रर्षिजिष्टं विबुधैश्च सारु सर्वश वृद्धार्वय काञ्चन दर्भचर्मभिः निशिष्टभाण्डं यजनं समाविशत सामागतां तत्र न कश्चनाद्रियन् विमानितां यज्ञकृतो मया जनः ऋतेश्व शिवैजननीं च सादरा प्रेमाश्रुकण्ठ परिसस्वञ्जुर्मुदां सौन्दर्यं सम्प्रश्नसमर्थवार्तया मात्रा च माते श्वशिभे स्य दत्तां बर्मासनं च धां नादत्तपित्रा प्रतिनिन्दिता सती अरुद्रभागं तमवेक्ष्य चाध्वरं पित्रा तम च देवे कृतहेलम्बभौ विभौ अनादितयज्ञसदस्यधीश्वरी चुकोपलोकानिवं धक्षतीरुषां जगर्षसामर्षविपन्नया गिरा शिवद्विषं धूपमधं श्रमस्म्यम् स्वदेशसा भूतगणान् समुत्थितान् निगृह्य देवी जगतोर्भिषृण्वतः श्रीदेव्य उवाच न यस्य लोकेऽस्त्यतिसायलप्रिय तथा प्रियो देहभृतां प्रियात्मनः तस्मिन् समस्तात्मनिमुक्तवैरकेरिते भवन्तं कतम प्रती प्रतीपयेत् प्रती प्रती प्रती प्रत। दोषान् परेशां हि गुणेषु साधवो कृणन्त केचिन्नो भवाजु साजुज गुणाश्च फल्गुन् बहुलीकरिष्णवो महत्तमास्ते स्वविदद्भवानघम् नास्य निर्मे तद्यं दं स सर्वदा महद्विनिन्दा गुणम् शेषं महापुरुषपादपांशुभि यस्ततेजसुतदेवशोभनं यद्व्यक्षरं नाम गिरीरितं नृणां सकृप्रसङ्गादघमाशुहन्ति तन् पवित्रकीर्तिं तमदङ्घ्यशासनं भवानहो देशशिवं शिवेतरः यत्पादपद्मं महतां मनोलिभि निषेवितं ब्रह्मरसा समार्थिभिः लोकस्य यद्वर्षति चाशिरोऽर्थिन् तस्मै भवान् दुह्यते विश्वबन्धवे किं वा शिवाख्यम् अशिवं न विदुस्तदन्ये ब्रह्मादेयस्तमवं किर्यजटाशमां स्मतारे तन्माल्यभस्मन्दृकं पालं वसत् ये मुदभिहृदयं दधति तचरणावशिष्टम् कर्णोऽपि ध निर्याद्युतकल्पयिषे धर्मा वितर्य शिणिभिर्णिभिरेशमारे छिन्ध्यात् प्रसय्यं द्रुसति मसतिं प्रमुच्ये जिवामसूनपि ततो विसृजे स धर्मः करे वरं न धारयिष्ये स्थितिकण्ठगर्भिणः दग्धस्य मोहादिविशुद्धिमन्मन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते न वेदवादाननुवर्तते मति स्व एव लोके रमतो महामुदे यथा गतिर्देव मनुष्ययो पृथग् स्व एव धर्मेण परं कर्म प्रवृत्तं च निवृत्तमप्रतं वेदे विविच्यो भयलिङ्गमाश्रितं विरोधि तद्योगपदैककर्तरी द्वयं तथा ब्रह्मणि कर्म निर्ग निर्गति मा वपदव्यपितुरस्मदाश्रिता यायज्ञशालासनधूमवर्त्मनिभिः तदन्यतृप्तैरसुभृद्भिरीडताम् अव्यक्तलिङ्गा अवधूतसेविताः नैतेन देहेन हरे कृतागशोद्देहोद्भवे नालमलं कुजन्मना वीडाममाभून् कुजनप्रसङ्गज्जन्मधिज्ञो महतामवद्यकृ गोत्रं तदेयं भगवान् वृषभजों दाक्षायणित्याह यदा सुर्मणाः भवेत नर्म स्मितमासु व्युद्रक्षम् एतत् कुपकुणपं वैत्रिवाच वैत्री उवाच इत्यद्भरे दक्षमनूद्यं सद्रुहन् चिताबुदेचिं निसदां निससादशान्तवा स्पृष्ट्वा जलम्पि तदुकूलसंवृता निमिल्लजिज्ञोगपथं समाविशत् यद्वा समानावनिलौ जिताशनासुदानमुत्थाप्य जनाभिचक्रतः तनैर्हृदे स्थाप्य धियोरसि स्थितम् कण्ठा ध्रुवौर्मध्यमनिन्दितानयत् एवं सदेहं महतां महीयसा मुहु समारोपितमङ्कमादराद् दिहासते रोक्षरुषा मनश्विने दधारगात्रे स्वनिलाग्निधारणाम् ततः स्वभरुतु शरणाम्बुजाशमं जगद्गुरो चिन्तयति यति चापरं ददर्शदेहो हतकल्मष सती सद्य प्रज्ज्वालसमाधिजाग्निनाम् तत्पश्यतां खेभुविचाद्भुतं महन् हाहेति वादशुमहा नजायत हन्त प्रिया दैवतमस्य देवी जहा वसूनकेन सती प्रकोपिताम् अहो अनात्मं महदस्य पश्यत प्रजापतिर्यस्य चराचरं प्रजाः जहावसून यद्विमतात्मजा सती मनस्विने मानभं मानमभीक्ष्णमर्हति सोऽयं दुमर्षहृदयो ब्रह्मजुक् च लोकेपकीर्तिं महतीमवाप्स्यते यदङ्गजां सां पुरुषद्विडूदयतां न प्रत्यषेधन् वितये पराधत वदत्येवं जने सत्यादिश्वासुत्यागमद्भुतं लक्षं तत्पार्षदाहन्तुम् उदत्तिष्ठन् नुधायुधा तेषामापततां वेगं निशाम्य भगवान् भृगो यज्ञघ्नाघ्नेन जजसा दक्षिणाग्नौ जुहावः अध्वर्युणा हूयमाने देवा उद्पेतु रोजसा ऋभवो नाम तपसा सोमम् प्राप्ता सहस्रश तैरलातायुधे सर्वे प्रमथा सह कुय्यकाः हन्यमानादिशोभेजोरुषद्भिर्ब्रह्म तेजसा यते श्रीमद्भागुते महापुराणे प्रपञ्चां सयितायां तु प्रतीदेहो सर्वोनां चतुर्शोऽध्यायः